चाणक्यनीति आयुकर्म च विचा निधनमे चैताज्य गर्भस्त देन साधुभ्यस्ते बांधवाः। ये च तैः सह गन्धारस्तद्धर्मात् सुकृतं कुलम् दर्शनध्यानसंस्पर्शैर्मत्स्यी कूर्मी च पक्षिणी शिष्युं पालयते नित्यं तथा सज्जनसङ्गतिः यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः तावदात्महितं कुर्यात् प्राणान्ते किम् करिष्यति कामधेनुगुणाविद्या ह्यकाले फलदायिनी प्रवासे मातृसदृशी गुप्तं धनं स्मृतं एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किम् एकश्चन्द्रस्तमो हन्दि न च ताराः सहस्रशः मूर्खचिरायुर्जातोऽपि तस्माज्जादमृदो वरः मृतः स चाल्पदुःखाय यावज्जीवम् जडो दहेत् कुग्रामवासकुलहीनसेवा कुभोजनं क्रोधमुकी च भार्या पुत्रश्च मूर्खो विधवाच कन्या विनाग्निना षट्प्रदहन्धिकायम् किं तया क्रियते धेन्वा यानध्री न गर्भिणी कोर्ध्वपुत्रेण जातेन यो न विद्वान् न भक्तिमान् संसारतापदग्धानाम् त्रयो विश्रान्तिहेतवः अपत्यं च कलत्रं च सताम् सङ्गदिरेव च स्वकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत एकाकिना तपोद्वाभ्याम् पठनम् गायनं त्रिभिः चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभीरणः सा भार्या या शुचिर्दक्षा सा या पदिव्रता सा या पदिप्रीता सा सत्यवादिनी अपुत्रस्य गृहं शून्यम् दिश्यशून्यास्त्व बान्धवाः मूर्खस्य हृदयं शून्यम् सर्वशून्या दरिद्रता अनभ्यासे विषम् शास्त्रमजीर्णे भोजनं विषम् दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेद् त्यजेत् क्रोधमुखीं भार्यां निस्नेहान् बान्धवां त्यजेद् अध्वा जरा देहवताम् पर्वतानां जलं जरा अमैधुनं जरास्त्रीणाम् वस्त्राणामातपो जरा इन्द्रियाणि च संयम्य भगवत्पण्डितो नरः देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् कक्कालक्कानि मित्राणि को देशौ व्ययागमौ कश्चासं काच मे शक्तिरिति चिन्त्यं मुहुर्मुहुः अग्निर्देवोद्विजादीनां मुनीनां प्रदिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ओ